अयोध्याकाण्डं सर्गं सेवन् सुमन्त्रोऽपि तदयोध्यां दिनान्ते प्रविवेशः वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ जयशब्देन राजानं स्तुत्वा तम् प्रणनामः ततो राजानमन्तं तं सुमन्त्रं विह्वलोऽब्रवीद सुमन्त्ररामः कुत्रास्ते सीतया लक्ष्मणेन च कुत्र त्यक्रस्त्वया रामः किं मां सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीद हारामहा गुणनिधे हासीदे प्रियवादिनि दुःखार्णवेद् निमग्नं मां म्रियमाणं न विलप्यैवं चिरं राजा निमग्नो दुःखसागरे एवं मन्त्रीरुदं दं तं प्राञ्जलिर्वाक्यमब्रवीत रामसीता च सौमित्रिर्मया नीता रथेन ते शृङ्गवेरपुराभ्यासे गङ्गाकुले व्यवस्थिताः गुहेन किञ्चिदानीदम् फलमूलादिकं च यद् स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विसर्जतत् त्वडक्षीरं समानाय्य गुहेन रघुनन्दनः जडामुकुटमाबध्य मामाह नृपदे स्वयं सुमन्त्रब्रूहिराजानं शोकस्तेस्तु न मत्कृते साकेतादधिकं सौख्यं विपिनेनो भविष्यति माधुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृदे आश्वासयदुराजानं वृद्धं शोकपरिप्लुतं सीता चाश्रुपरीताक्षी मामाह नृपसत्तमा दुःखगद्गदया वाचा रामं किञ्चिदवेक्षसि साष्टाङ्गं प्रणिपादं मे श्रो पदाम्बुजे इति प्ररुदती सीदा गदा किञ्चिदवाङ्मुखी ततस्ते श्रु परीताक्षा नावं मारुरुहुस्तदा यावद्गङ्गां समुत्तीर्य गदास्तावदहं स्थितः तदो दुःखेन महदा पुनरेवाहमागतः तदो रुदन्ती कौसल्या राजानमिदमब्रवीद कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान् वरम् ं देहि तस्यैव मत्पुत्र विवासितः कृत्वा तोमेव तत्सर्वमिदानीं किम्नु नु रोदिशि कौसल्यावचनं श्रुत्वा क्षदे स्पृष्ट इवाग्निना पुनशोकाश्रु पूर्णाक्ष कौसल्यामिदमब्रवीद दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्य लम् इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः सप्तोकं बाल्यभावेन केनचिन्मुनिना पुरा पुराकं अचरमृगयासक्तो नद्या स्थिरे महावने तत्रार्धरात्रसमये मुनिः कश्चित्तृशार्दितः पिपा सार्दितयोः पित्रोर्जलमानेदुमुद्यतः अपूर कुम्भं तदा शब्दो भवन् गजः पिबति पानीयमिति मत्वा महानिषि बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपं हा हदोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः कस्यापि कृतो दोषो मयाकेन हदो विधे प्रदीक्षदे मां माता च पिता च जलकाङ्क्षया तच्छ्रुत्वा पौरुषं वचः शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् अजानदा मया विद्धस्त्रादुमर्हसि मां मुने इत्युक्त्वा पादयोस्तस्य पदिदो गद्गदाक्षरः तदा मामाह समुनिर्मा वैषीर्नृपसत्तमा ब्रह्महत्या स्पृश्येन्न त्वां वैश्योऽहं पितरौ मां प्रदीक्षेदे क्षुतृभ्यां परिपीडितौ तयोस्त्वमुदकं लेहि शीघ्रमेवाविचारयन् न चेत् भस्मसात्कुर्यात् पिदामे मे यदि कुप्यति जलं दत्त्वा तु दौ नत्वा सर्वं निवेदय शल्यमुद्धरमे देहात् प्राणान् त्यक्ष्यामि पीडितः इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः सजलं कलशं धृत्वा गदोऽहं यत्र दम्पती अधिवृद्धावन्धदृशौ क्षुत्पिपा सार्दितौ निशि नायादिसलिलं गृह्य पुत्रः किं वात्रकारणम् अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ आवा किं वा भक्तिमाना वयोसुतः इति चिन्ता व्याकुलौ तौ मत्पादन्यासजं ध्वनिं श्रुत्वा प्राहपिता पुत्र किं विलम्बकृतस्त्वया देह्या वयोः सुपानीयं पिब त्वमभिपुत्रक इत्येवं लपतोर्भीत्या सकाशमगमं शनैः पादयोः प्रणिपत्याहमब्रवं विनयान्वितः नाहं पुत्रस्त्वयोऽध्याया राजा दशरथोऽस्म्यहम् पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः जलावताराद्दुरेहं स्थित्वा जलगदं ध्वनिं श्रुत्वाहं शब्दवेधित्वादेकं बाणमधा त्यजं हतोस्मि दिध्वनिं श्रुत्वा भयात्तत्राहमागतः जडां विकीर्यपदिदं दृष्ट्वाहं मुनिदारकं भीतो गृहीत्वा तत्पादौ रक्षरक्षेदिचाभ्रवं मा भैषीरिधि मां प्राह ब्रह्महत्या नदे मत्पित्रोत्सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् इत्युक्तो मुनिनाथेनक्ष्यागदो नक्ष्यागदो रक्षेता मां दयायुक्तौ युवां हि शरणागतम् इति श्रुत्वा तु दुःखार्तौ विलप्य बहुशोच्यतं पतितो नौ सुतो यत्र नयस्तत्रा विलम्बयन् ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोधविलेपदुः हाहेदि क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचतां जलं देहीधिपुत्रेदि किमर्थं न ददास्यलम् तदो मामो चतुःशीघ्रं चिदिं रचय भूपते मया तदैव रजिता चिदिस्तत्र निवेशिताः त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः तत्र वृद्धपिदा प्राह त्वमप्येवं भविष्यसि क्रशोक मरण प्राप्से से वचना मम इदान मम प्राप्त शाप कालो निवाद्वा विललाध हा। राजा हाराम हाम पुत्रहासिदे हा, पुत्र हा लक्ष्मण गुणाकर प्राप्तो मृत्युं कैकेयिसम्भवम् वदन्नेवं दशरथः प्राणान् त्यक्त्वा दिवङ्गदः कौसल्या च सुमित्रा च तथान्या राजयोषितः चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकं वसिष्ठः तत्र प्रय त्रिरावृता वदन दशरथप्राण त्यक्वा दिव गौसल सुम चितास्ते भरतश्रीमाशत्रुघ्नसभु उच्यतां भरतः शीघ्रमागच्छेदि ममाज्ञया अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु इत्युक्तास्त्वरिदं दूधा गत्वा भरतमातुलं युधाजिदं प्रणम्योचुर्भरतं सानुजं प्रति वसिष्ठस्त्वब्रवीद्राजन् भरद सानुज प्रभु शीघ्र गुरी मयोध्याम विचारयन ये भरतस्वरिदिवल आयौ गुरुण दिष सह दूतस्तु सानुजह राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् इति परोमार्गे मार्गे चिन्तयन्नगरं ययौ नगरं, नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् उत्सवैश्च परित्यक्रं दृष्ट्वा चिन्ता परोभवद। प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् अपश्यत् कैकेयीं तत्र एका मेवासने स्थितां ननाम शिरसापादौ मादुर्भक्तिसमन्वितः आगदं भरदं दृष्ट्वा कैकेयीप्रेमसम्भ्रमाद बुद्धायालींग्यरभस स्वांग्य संस्थि मूर्धन्यवक्राप्रच्च कुशल स्वकुस्ता मे कुशलोभ मुभलक्षण दिष्ट कुशली मया दृष्टि पुत्रक इति पृष्ट भरतो मात्रा चिन्ताकुलेन्द्रियः दूयमानेन मनसा मादरं समपृच्छद मातः कुत्रास्ते एका त्वमिह संस्थिता त्वया विना न मेताधः कदाचिद्रहसि स्थितः इदानीम् दृश्यदेनैव कुत्र तिष्ठति मे वद अदृष्ट्वा पितरं मेद्य भयं दुःखं च जायते अथाः कैकेयीपुत्र किं दुःखेन तवानखा यागदिर्धर्मशीलानामश्वमेधादि याजिनां तां गतिं गदवाहनद्य पिताते ते पितृवत्सल तच्छ्रुत्वा निपपादौर्व्यां भरदशोकविह्वलः हातातक्वगदोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे असमर्प्यैवरामाय राज्ञे मां क्व गतोऽसि इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् उद्दाप्यामृजनयने कैकेयीपुत्रमब्रवीद समाश्वसि हि भद्रं ते सर्वं सम्पादितं मया तामाह भरतस्तादो म्रियमाणः किमब्रवीदत तमाः कैकेयी भरतं भयवर्जिता हा रामरामसीतेदि लक्ष्मणेदि पुनः पुनः विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ कामाह भरदोऽहेऽम्ब रामसन्निहितो न किं तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः रामस्य यौवराज्यार्थं पित्रादे ते सम्भ्रमकृतः तव राज्यप्रदानाय तदाहम् विघ्नमाचरं राज्ञा दत्तं हिमे पूर्वं वरदेन वरद्वयं याचितं तदिदानीमे तयोरेकेन तेखिलं राज्यं रामस्य चैकेन वनवासो मुनिव्रतं तदसत्यपरो राजा राज्यं दत्वा तवैव रामं सम्प्रेषयामास वनमेव पिता तव सीताप्यनुगदा रामम् आदिवृत्यमुपाश्रिता सौभ्रात्रं दर्शयन् राममनुयातोऽपि लक्ष्मणः वनं गदेषु सर्वेषु राजा तानेव चिन्तयन् प्रलपन् ममार रामेदि ममारनृपसप्तमः इति माधुर्वच श्रुत्वा वज्राहद इवद्रुमः द्रुमः पपादभूमौ निःसंन्यस्तं दृष्ट्वा दुःखिता तदा कैकेयी पुनरप्याह वत्सशोकेन किं तव राज्ये महति सम्प्राप्ते दुःखस्यावसरकृतः इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव असम्भाष्यासि पापे मे घोरे त्वं भर्तृकादिनी अहमग्निं प्रवेक्ष्यामि विषं वा भक्षयाम्यहम् खड्गेन वाधजात्मानं हत्वायामि यमक्षयं भर्तृकादिनि दुष्टेत्त्वं कुम्भीपाकं गमिष्यति इति निर्भत्स्य कैकेयीं कौसल्याभवनं ययौ सा भरदं भरतं दृष्ट्वा मुक्तकण्ठा रुरोधः पादयोः पतितस्तस्या भरतोऽपि तदा रुदत आलिङ्ग्यभरतं साध्वी राममादा यशस्विनी कृशादिदीनवदना साश्रुनेत्रेदमब्रवीद पुत्रत्वयि गदे दूरमेवं सर्वं त्वया ते मातृचेष्टितं पुत्रः सभार्यो वनमेव यादः सलक्ष्मणो मे रघुरामचन्द्रः चिराम्बरो बद्धजडाकलापः सन्ध्यज्य मां दुःखसमुद्रमग्नाम् हारामहा मे रघुवंशनाथ जादोऽषि मे त्वं परतः परात्मा तथापि दुःखं न जहादिमां वै विधिर्बलीयानिधि मे मनीषा स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुच पादौ गृहीत्वा प्राहेदं शृणुमादर्वचो मम कैकेय्यायत्कृतं कर्म रामराज्याभिषेचने अन्यद्वा यदि जानामि सामया नोदिदा यदि पापं मेस्तु तदा मादर्ब्रह्महत्या शतोद्भवं हत्वावशिष्टं खड्गेन अरुन्धत्या समन्वितं भूयात्तत्पापमखिलं मम जानामि यद्यहम् इत्येवं शपथं कृत्वा रुरोद भरतस्तदा कौसल्या तमधालिङ्ग्य पुत्रजानामि मा शुचः यदस्मिन्नन्तरे श्रुत्वा भरतस्य समागमं वसिष्ठो मन्त्रिभिः प्रययौ राजमन्दिरं रुदन्तं भरदं दृष्ट्वा वसिष्ठः प्राहसादरम् वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः भुक्त्वा मर्त्य सुखं सर्वमिष्ट्वा विपुलदक्षिणैः अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुदं हरिम् अन्ते जगामत्रिदिवं देवेन्द्रार्थासनं प्रभुः तं शोचसि वृथैवत्वमशोच्यं मोक्षभाजनम् आत्मा नित्यो व्ययशुद्धो जन्मनाशादिवर्जितः शरीरं जडमत्यर्थमपवित्रं विनश्वरं विचार्यमाने शोकस्य नावकाशकथञ्चन पिता वा तनयो वापि यदि मृत्युवशं गतः मूढास्तमनुषोचन्दित्मताडनपूर्वकं निःसारे खलु संसारे वियोगो ज्ञानिनां यदा भवेद्वैराग्य हे दुस्सा दुःसशान्तिसौख्यं तनोति च जन्मवान् यदि लोकेस्मिन् सर्हितं मृत्युरन्वगाद तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ विजानन्नप्यविद्वान् ह्यः कथं शोचति बान्धवान् ब्रह्माण्डकोडयो नष्टा सृष्टयो बहुशो गताः शुष्यन्ति सागरा सर्वे कैवास्ताक्षणजीविते भंगुरं आयुत्यजत्यवेलायां कस्तत्र प्रत्ययस्तव प्राक्तन देही प्राक्तन देहोद्ध कर्मणा देहवान् पुनः तद्देहोद्धेन च पुनरेवं देहः सदात्मनः यथा वैजीर्णं वासो गृह्णादिनूतनं तथा जीर्णं परित्यज्य देही देहं पुनर्नवं पजत्येव सदा तत्र शोकस्यावसरः कुतः आत्मानं म्रियते जादु जायते न च वर्धते षड्भावरहितोऽनन्दः सत्यप्रज्ञानविग्रहः आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः एक एव परो ह्यात्मा ह्यद्वितीयसमस्थितः इत्यात्मानं दृढं ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियां तैलद्रोण्याः पिदुर्देहमुद्धृत्य सचिवैः सह कुरु यथा न्यायमस्माभिः कुलनन्दन इति सम्बोधितः साक्षात् गुरुणा भरतस्तदा विसृज्या ज्ञानजं शोकं चक्रे सविधिवत्क्रिया गुरुणोक्तप्रकारेण आहिताग्नेर्यधा विधि संस्कृत्य सपि दुर्देहं कर्मणा एकादशे घनिप्राप्ते ब्राह्मणान् वेदभारगान् भोजयामास विधिवच्छ दशोऽथ सहस्रशः उद्दिश्यपितरं तत्र ब्राह्मणेभ्यो धनं बहु ददौ गवां सहस्राणिग्रामान् रत्नाम्बराणि च अव सत् यत्र राममेवानुचिन्तयन् वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः रामेरण्यं प्रयादे सह जनकसुता लक्ष्मणाभ्यां सुखोरं मदा मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः गच्छाम्यारण्यमध्यस्थिरमदिरखिलं दूरदोपास्य राज्यं रामं सीतासमेधं स्मितरुचिरमुखं नित्यमेवानुसेवे इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे सप्तमः सर्गः